ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 43 त्रि भार्गवचरितं वसिष्ठ उवाच एवं सुस्निग्धचित्तेषु तेषु तिष्ठत्सुभूपते भवान्युत्सङ्गतो रामः समुद्धाय कृताञ्जलिः तुष्टाव प्रयदो भूत्वा निर्विशेष विशेषवद अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम् राम उवाच प्रकृतिविकृतिजातं विश्वमेतद्विधातुं मम कियदनुभादं वैभवं तत्प्रमातुम् अविदितनु नामाभीष्टवस्त्वेकधामा भवदध भवभामा पादुमां पूर्णकामा प्रकटितगुणभानं कालसङ्ख्याविधानं सकलभवनिधानं कीर्त्यदे यत्प्रधानं तदिह निखिलतादस् सम्बभूवोक्षपातः कृतकृतकनिपातः पादुमामध्यमातः लेखपादाविनाशी प्रथमकुलविकाशी सर्वविद्याप्रकाशी प्रसभरचित काशी भक्तखिलाशीरवद विजितशी मंसदा षणुखाशी हर निकट निवासी कृष्णसेवालासी प्रणतजन विभाषी प्रहासी, हर कृतबहुम गोपिकेशैकतानो विदिदबहुविधानो जायतां कीर्तिहानौ प्रभो नियतमानायो नुन्नभक्तान्तरायो धृतदुरिधनिकायो ज्ञानदापरायोः सकलगुणगरिष्ठो राधिकाङ्गे निविष्ठो मम कृतमपराधं क्षन्तुमर्हत्वगार्थम् या राधा जगदुद्भवस्तिलयेष्वराध्यते वा जनैः शब्दं बोधयदीश वक्त्रं विगलत्प्रेमामृदास्वादनं राशेशीरसिकेश्वरी रमणधृन्निष्ठानि जानन्दिनी नेत्री परिवादु परिपादु मामवनदं राधेदि यकीर्त्यदे यस्यागर्भसमुद्भवो ह्यदि विराड्यस्यांशभूतो विराड्यन्नाभ्यम्बुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसुब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा पायाद्य सचराचरस्य जगतो व्यापी विभुः सच्चिदानन्ताब्धिः प्रकटस्थितो विलसतिप्रेमान्धया राधया कृष्णपूर्णतमो ममोपरि दया क्लिन्नान्तरस् सात्सदा येनाहं सुहृदि भवामि च भवाम्यानन्दलीनान्तरः वसिष्ठ उवाच स्तुत्वैवं जमदग्न्यस्तु विररामः तत्परं विज्ञाताखिल तत्त्वार्थो हृष्टरोमा कृतार्थवद अधो वाचप्रसन्नात्मा कृष्णकमललोचनः भार्गवं प्रणदम्भ्र्या कृपापात्रं पुरस्थितम् कृष्म उवाच सिद्धोसि भार्गवेन्द्रत्वं प्रसादान् मम सम्प्रदम् अद्य प्रभृति वत्सास्मिं लोके श्रेष्ठतमोऽ भव तुभ्यं वरो मया विष्णु पदाश्रमे तत्सर्वं क्रमदोभाव्यं समा बह्वीस्त्वया विभो दयाविधेयादिनेषु श्रेय उत्तममिच्छदा योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा स्वत्समो नास्ति लोकेऽस्मिं तेजसा च बलेन च ज्ञानेन यशसावापि सर्वश्रेष्ठतमो भवान् अथ स्वगृहमासाद्य पित्रो शुश्रूषणं कुरु तपश्चर यथा कालं तेन सिद्धिकरस्थिता राधो राधोत्संगात्सुदाप्य गणेश राधिकेर आलिंग्यम राण मैत्री तस् चकार अधो भावपि भाव संप्रीदागणेशर कृष्णाजया महाभागौ बभूवधुरिंदमा स्मिन्नन्तरे देवी राधा कृष्णप्रिया सती उभाभ्यां च वरं प्रादात् प्रसन्ना स्या राधोवाच सर्वस्य जगदो वन्द्यौ दुराधर्षौ प्रिया वहौ मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ भवतोर्नाम चौच्चार्य यत्कार्यं यत्समारभेदसिद्धिं प्रयाद तत्सर्वं मत्प्रसादाग्धि तस्य अधोवाच जगन्मादा भवानी भववल्लभा भावा वत्स रामप्रसन्नाकं तुभ्यं कं प्रददे वरं तं प्रब्रूहि महाभागभयं त्यक्त्वा सुदूरदः राम उवाच जन्मान्तरसहस्रेषु येषु येषु व्रजाम्यहम् कृष्णयोर्भवयोर्भक्तो भविष्यामि दिदेहि मे अभेदेन च पश्यामि कृष्णौ चापि भव तथा पार्वत्युवाच एवमस्तु महाभागभक्तोऽसि भवकृष्णयोः चिरञ्जीवी भवाश्युत्वं प्रसादान् मम सुव्रद अधोवाच धराधीशप्रसन्नस्तमुमापदिः प्रणदं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः शिव उवाच रामभक्तोऽसि मे यस्थे दत्तो वरो मया स भविष्यदि कास्न्येन सत्यमुक्तं न चान्यथा अद्य प्रभृति लोकेऽस्मिन् भवतो बलवत्तरः न कोऽपि भवताद्वत्स तेजस्वी च भवत्परः वसिष्ठ उवाच अथ कृष्णोऽप्यनुज्ञाप्यशिवं च न गनन्दिनी गोलोकं प्रययौ युक्तश्रीदाम्ना चापि राधयात् अधरामोऽपि धर्मात्मा भवानीं च भवं तथा सम्पूज्य चाभि वाद्याधप्रदक्षिणमुपाक्रमीद गणेशं कार्तिकेयं नत्वा पृच्छ्य च भूपते अकृतव्रणसंयुक्तो निश्चक्रामगृहान्तरात् निष्क्रम्यमानो रामस्तु नन्दीश्वरमुखैर्गणैः नमस्कृतो ययौ राजन् स्वगृहं परया मुदा यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे पार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ओम्